अथैकादशः सर्गः तम् मन्मथशरैर्विद्धम् कामवेगवशानुगम् वचः नास्मि विप्रकृता देव केनचिन्नावमानित कर्तुमिच्छसि अथ ते व्याहरिष्यामि यथाभिप्रार्थितम् मया तामुवाच महाराजः कैकेयीषदुत्स्मयः कामीहस्तेन सङ्गृह्य मूर्धजेषु भुवि स्थिता अवलिप्तेन जानासित् त्वत्तः प्रियतरो मम मनुजो मनुजव्याघ्राद्रामादन्यो न विद्यते तेनाजय्येन मुख्येन राघवेण महात्मना शपेते जीवनार्हेण ब्रूहि यन्मनसेऽप्सितम् यम् मुहूर्तमपश्यंस्तु न जीवेतमहम् ध्रुवम् तेन रामेण कैकेयि शपेते वचन क्रियाम् आत्मना चात्मजैश्चान्यैर्वृणेयम् मनुजर्षभम् तेन कैकेयि शपेते वचनक्रियाम् भद्रे हृदयमप्येतदनुमृष्योद्धरस्व मे एतत्समीक्ष्य कैकेयिब्रूहि यत्साधु मन्यसे बलमात्मनि पश्यन्ती न विशङ्कितुमर्हसि करिष्यामि तव प्रीतिम् सुकृतेनापि ते शपे सा तदर्थमना देवी तमभिप्रायमागतम् निर्माध्यस्थ्याच्च हर्षाच्च चा बभाषे दुर्वचम् वचः तेन वाक्येन सम्भृष्टा तमभिप्रायमात्मनः व्याजहारमहाघोरमभ्यागतमिवान्तकम् यथाक्रमेण शपसे वरम् मम ददासि च तच्छृण्वन् तत्र यस्त्रिंशद्देवाः सेन्द्रपुरोगमाः चन्द्रादित्यौ नभश्चैव ग्रहारात्र्यहनीदिशः जगच्च पृथिवीचेयम् सगन्धर्वाः स राक्षसाः भूतानि गृहेषु यानि चान्यानि भूतानि जानीयुर्भाषितम् तव सत्यसम् धो महातेजाधर्मज्ञः सत्यवाक् शुचिः वरम् मम ददात्येष सर्वे शृण्वन्तु दैवताः इति देवी महेश्वासम् परिगृह्यापिशस्य च ततः परमुवाचेदम् वरदम् काममोहितम् स्मरराजन् तस्मिन् देवासुरेरणे तत्र त्वां श्यावयच्छत्रुस्तव जीवितमन्तरा तत्र चापि मया देवयत्वम् समभिरक्षितः जाग्रत्यायतमानायास्ततो मे प्रददौ वरौ तौ दत्तौ च वरौ देव तत्प्रतिश्रुत्यधर्मेण न अद्यैव हि जीवितं त्वद्विमानिता वाङ्मात्रेण तदा राजा कैकेय्या स्ववशे कृतः प्रचस्कन्दविनाशाय पाशम् मृग इवात्मनः ततः परमुवाचेदम् वरदम् काममोहितम् वरौ त्वयादेव तदा दत्तौ महीपते तौ तावदहमद्यैव वक्ष्यामि शृणुमे वचः अभिषेक अभिषेकसमारम्भो राघवस्योपकल्पितः अनेनैवाभिषेकेण भरतो मेऽभिषिच्यता योऽ द्वितीयो वरो देव दत्तः प्रीतेन मे त्वया तदा देवासुरे युद्धे तस्य कालोऽयमागतः नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः चीराजिनधरो भरतो भजतामद्य यौवराज्यमकण्टकम् एष मे परमः कामो दत्तमेव वरम् वृणे अद्य चैव हि पश्येयम् प्रयान्तम् राघवम् वने स राजराजो भव सत्यसङ्गरः कुलम् च शीलम् च हि जन्म रक्ष हि वदन्त्यनुत्तमम् तपोधनाः सत्यवचोहितम् इत्यार्षे शे श्रीमदरायणे वाक आदि का्योध्यादश